मुद्गलपुराणं खण्डं त्रि महोदरचरितम् अध्यायम् तर्टि नैन् विष्णुदेहधारणवर्णनम् श्रीगणेशाय नमः मुद्गल उवाच रामस्य रेव भार्या सुरूपासीद्गुणान्विता तस्यामुत्पादयामा सद्वौ पुत्रौ निषधोल्मुकौ षोडचस्त्रिसहस्राणिशतमष्टोत्तरम् तथा mm -hmm. कृष्णस्य पत्न्यः सम्प्रोक्ताश्चारुरूपा सुलोचनाः तासु पुत्रा बभूवश्च दशपुत्राश्च दुहितैका बभूविरे प्रद्युम्न साम्बमुख्याश्च महातेजो युधा सुदाः महारथा महाभागा बभूवुर्ज्ञानसंयुधाः प्रद्युम्नस्य च पुत्रो भूधनिरुद्धः प्रतापवान् तस्य पुत्रस्तु वज्रः भूद्वंशधारकः मुसलात्सोऽवशिष्टो भूदेवम् नानाविधा नृपाः जातास्तत्र न शक्यं वैभवेत् कथ इदं मया दक्ष उवाच कथं विष्णुस्वयं साक्षान् मानुषे देहधारकः बभूव तत्र यन्मूलं तदेव वदमानदा मुद्गल उवाच कथां शृणो महारम्यां पुरा जादां प्रजापदे ययाते संशय सर्वो नाशमेष्यदि तच्छ्रुताद् पुरा देवैश्च दैत्येशा जिदा विष्णु विष्णुसमन्वितैः राज्यं त्यक्त्वा तदो दैत्या वनेष्ुव्यचरन्भयाद् ततस्तान् हन्तुमत्यन्तं ययुर्देवा उदायुधाः प्रह्लादप्रमुखाः सर्वे भयभीदास्ततो भवन् चुस्ते कृत्वा करपुडं पुरः राज्यं त्यक्त्वा वयं सर्वे वनेषु विचरामहे शस्त्रादिभिर्विहीनाह्नः कथं हन्तुं समुद्यदाः सुराः सर्वं भवद्भिश्च गृहीतं तदपि ह्यहो अदो नो रक्षदप्राज्ञाशरणं समुपागदान् मा हिंस्यदमहाभाग दीनांश्चैव विशेषतः तथापि विष्णुना तत्र प्रेरितास्तेऽपि दानवान् देवासन्तुं प्रारभन्त पलायन्तासुरास्तदा शरणं स्वगुरुं तत्र भृगुं योगनिधिं व्ययुः उदायुधास्तु पश्चात्ते जग्मुक्रोधसमन्विताः तत्र सर्वे भृगुं दक्ष ददृशुर्न च दानवाः समिदर्थम् गतम् ज्ञात्वा भृगुपत्नीं समाययुः रक्ष नो देविभीतांस्तु देवेभ्यः शरणम् ददान् नो मरिष्यामस्त्वदग्रे नात्र संशयः तेषां वचनमाकर्ण्यतानुवाच सुखप्रदा मा भयं कुरु दह्येवं वारयामि सुरानहम् तस्यास्तद्वचनं श्रुत्वा हर्षयुक्ताश्च दानवाः तत्र संस्तास्तदो दक्ष संयुताः एतस्मिन्नन्तरे तत्रा जग्मुर्विष्णुपुरोगमाः देवा उदायुधा सर्वे दैत्यन् हन्तुं प्रजक्रमुः तानुवाजभृगोः पत्नी मा हिंस्यदसुरोत्तमाः दैत्यान् मां शरणं प्राप्तान् राज्यहीनान् विशेषतः सामनादृत्य देवेन्द्रो विष्णुना प्रेरितः स्वयं वज्रं धृत्वा ययौ दैत्यान् क्रोध विलोचनः ततो भृगोश्च पत्नीसाचुकोपतपसा स्वयं सवज्रं देवराजं तं स्तम्भितं प्रचकारः तद्दृष्ट्वा विष्णुना तत्र चक्रेण क्षुरनेमिना शिरश्चिन्नं भृगुः पत्न्याः सापपादधरातले एतस्मिन्नेव काले तु भृगुस्तत्र समागतः मृदां पत्नीं तद्धा दृष्ट्वा चुकोपारुणलोचनः सशापविष्णुमावेशात्पतत्वं पृथिवीतले ब्राह्मणी वध दोषेण देवाधमन देवाधमनबुद्ध्यसि भृगुणातपसा तपसास्वेन ज्ञानेनापि प्रजापदे जीवयुक्ता कृता पत्नीरक्षिता दानवास्तथा ततोदिदुःखितो देवो विष्णुः शोकसमन्वितः शरणं विघ्नराजं तं ययौ क्षेत्रे मयूरके तत्रादितपसादेवं वर्षमात्रं प्रजापते निराहारेण भक्र्यास तोषयामास विघ्नपं ततस्थं गणराज स ययौ भक्रिनियन्त्रितः उवाच च महाविष्णुं वरं वृणुहृदीप्सितम् गणेशं प्रणनामाधोद्धायासौ विष्टरश्रवाः कुपूजभक्तिभावेन तं तुष्टाव गजाननम् अथर्वशिरसातेन स्तुतस्तं प्रत्युवाचः वरं वदय दास्यामि माखेदं कुरु केशव यदि प्रसन्नभावेन गजानना गजाननशापं मे भृगुसम्भुदं निवर्तय महाप्रभो अत्रैव वाससंस्थानं देहिते भजनाय मे निर्विघ्नं सर्वदा त्वत्पदप्रियं मां त्वत्पदप्रियम् ओमित्युक्त्वा स्वयं धुण्डिरुजिवान्भक्तमुत्तमम् माचिन्ताम् कुरु विष्णो त्वं शृणो मे परमं वचः तस्य वाणीं न मृषा करिष्यामि कदा तस्मान्मृत्युलोके पदिष्यसि तत्रैव ते सदा ज्ञानं नष्टं नैव भविष्यति मत्प्रसादाच्च देवे स स्वेच्छाचारी सदा सुखी देव वै सम्प्रार्थितस्त्वं वै दैत्यादीनां वधाय च धर्मसंस्थापनार्थायावतारम् प्रधरिष्यसि तत्र ते कीर्तिरत्यन्तं भविष्यति विशेषतः यस्यो महत्पृथिव्यां त्वं स्थापयिष्यसि केशव तत्र त्वदीयभक्ताश्च भविष्यन्ति विशेषदः तेषां चतुर्विधां वाञ्छां पूरयिष्यसि नित्यदा पुनश्च देवकार्यं च कृत्वा देवजनार्दन विकुण्ठे ते सदा वासो भविष्यति स्वेच्छया देहवांस्त्वं वै भविष्यसि न मत्प्रसादात्कृषिकेश सर्वं ते वाञ्छितं भवेत् अन्यत्वया च देवेश प्रार्थितं तद्भविष्यति वसत्वं क्षेत्र गो भूत्वा स्थानं दत्तं मया क्षयम् इत्युक्तान्तर्भते दक्ष गणेशकरुणानिधिः विष्णुना तत्र संवासकृतो भक्र्या प्रजापदे पूर्वदिग्भागदेशे वैस्थापितो गणनायकः विष्णोर्विनायक इति नाम तस्य कृतं द्विजैः एतत्तेकथितं दक्षदेहधारणकारणं विष्णोर्देवाधिपस्यापि नानायोनिसमुद्भवः ॐ तत्सदिति श्रीमदान्ध्ये पुराणोपनिषदि श्रीमन्मौद्गले महापुराणे तृतीये खण्डे महोदरचरिरे विष्णु देहधारणवर्णनं नामैको न चत्वारिंशोऽध्यायः ओ